मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं सिक्स्टि एय्ट् पुष्टिपतिचरितं श्रीगणेशाय नमः गृसमद उवाच श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाचः प्रणया वनदो भूत्वा ब्रह्माणं सर्ववेदिनम् अगस्त्य उवाच भगवन् सर्वतत्त्वज्ञकथितं सर्वमञ्च सा त्वया तेनाहमत्यन्तं सुतुष्ठो ब्रह्मवित्तम एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेद तद्वदस्वदयासिन्धो भवेयं दुःखवर्जितः तदस्तं प्रत्युवाचेदं वचनं स पितामहः ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतं ब्रह्मोवाच शृणु प्रवक्ष्यामि ज्ञानं योगात्मकं महद यस्य त्वं गणपत्यो वै भविष्यसि सुसेवनाद देहदेहिमयं ब्रह्मस्वद उत्थानवाचकं जानीहि सर्वभावेन बोधरूपं विशेषतः साङ्ख्यं यद्वदधिब्रह्म परतोत्थानवाचकं बोधहीनस्वभावेन लभते स्वसुखस्थितं तयोरभेदयोगे वै स्वसंवेद्यमतः परं जानीहि सर्वसंयोगकारकं योगसेवया पञ्चभेदामदास्तस्य तान् शृणुष्व महामते जानीहि भेदरूपं यत् सत्यं सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु जानीहि संस्थितं पुत्र सदा भेदादिवर्जितं तयोः संयोगकर्ता स विष्णुरानन्दवाचकः समात्मकं ब्रह्म जानीहि सुखदं परं त्रयाणां नेदि कर्ता च शङ्करः परिकीर्तितः अव्यक्तं ब्रह्मजानीहि तत्रोक्तं मोहवर्जितं त्रिविधं मोहयुक्तं वैदुरीयं मोहवर्जितं तेषां संयोगभावेन स्वानन्दः परिलभ्यते स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकं सर्वत्रायं निजानन्दस्वानन्दे सकलो भवेत् अयोगवाचकं ब्रह्म निजानन्दात् परं मदं संयोगहीनभावेन लभ्य देनात्र संशयः संयोगायोगयोर्योगे तयोर्नाश्ये महामुने स एव योग आख्यादशान्तिरूपेण लभ्यते स एव गणनातोऽयं जानीहि ब्रह्मनायकः गकारश्चैव संयोगो नकारो योग उच्यते तयो तयोस्वामी सवेदेषु विचारय महामदे तमाराधय यत्नेन तद सौख्यमवाप्स्यसि अधुना त्वं सुसंकष्टयुक्तस्तत्र कुरुष्वभो चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् तपोवनं तदगच्छ व्यवसायम् करोम्यहम् कृत्समद उवाच ब्रह्माणं स नमस्कृत्य ययौ स्वगतभोवनम् षडक्षरेण विघ्नेशं तोषयन् मुनिसप्तमः सदा ध्यानरथो भूत्वा तदाप तप उत्तमं सङ्कष्टहरणीं प्राप्तां चतुर्धीं स चकारः त्रिमासे प्रगदे तुष्टो गणेशो व्रतसेवया ध्यानेन तस्य प्रह्लादतपसा भक्तिभावतः पञ्चम्यां कृष्णपक्षस्य बभूवाकाशवाक्परा अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीं गच्छत्वं पिब विघ्नेशं स्मृत्वा दं जलधिं मुने वातापिं जहि तत्रस्तं तपस्तेजः समन्वितः ततः स भूत्वा गत्वा जलधिसन्निधौ गणेशमनसा ध्यात्वा पौतं क्रोधसंयुतः शोषयित्वा जलं सर्वं संस्थितो मुनिसप्तमः तेजसा ज्वालयामास वातापिं विप्रखादिनं पदोदेवगणः सर्वे दुष्टहुस्तम् महामुनिं दैत्यांस्तत्र स्थितान् सर्वान् जघ्नो देवा उदायुधैः पुनर्गङ्गां समानीयो दधिमापूर्य तज्जलैः भगीरथेन देवास्ते संस्थिता विगतज्वराः तदोगस्त्य समागम्य वादापि नगरं प्रभुः जभिः पुष्कलं द्रव्यम् गृहीत्वा स्वस्थलं ययौ लोपामुद्रां महातेजां स्तोषयामासयत्नतः पश्चात्तपसि संस्तो स वजपन्मन्त्रमुत्तमम् जित्वा पञ्चविधम् चित्तं योगीन्द्रो योगसेवया तदो ततो महायशान्तिमापेदे गणना यके पुनर्भक्त्या गणेशानां मयूरेदं समागतः क्षेत्रे तत्रा पूजयत्स नित्यं हर्षसमन्वितः एवं पुष्टिपदेश्चैव महिमा ते निरूपितः सङ्क्षेपेण मया दैत्यशृणु चिन्ता मणे कथा इदं पुष्टिपदेश्चित्रं चरितं यत् शृणोति वा सकलं तस्य हस्तगं प्रभवेद्ध्रुवम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पुष्टिपदिचरितं नामाष्टषष्टितमोऽध्यायः ओम्